ब्रह्माराण पूर्वभाग अध्या तटिटू युग प्रजाक्षणमृषि प्रवरवर्णनम सूद उवाच युगेशु यास्बोधत आसुरी सर्प पैशाची यक्षराक्षसी। यस्मिन् युगे च सम्भूदिस्थासां यावच्च जीवितं पिशाचासुरगन्धर्वां यक्षराक्षसपन्नगाः परिणाहोच्छ्रयैस्तुल्या जायन्तेः कृते युगे षण्णवत्यङ्गुलोत्स्येथो ह्यष्ठानां देवजन्मनाम् ेनाङ्गुलप्रमाणेन निष्पन्नेन च पौष्टिकाद् एतत् स्वाभाविकं तेषां प्रमाणमिति कुर्वते मनुष्या वर्तमानास्तु युगं सन्ध्याशकेष्विह देवासुरप्रमाणं तु सप्तसप्तङ्गुलादशद अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरं देवासुरप्रमाणं तु उच्छ्रयात्कलिजैस्मृतम् चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैस्मृतः स्वेनाङ्गुलिप्रमाणेन ऊर्ध्वमापातमस्तकाद इत्येष मनुषोत्सो ह्रसतीह युगांशु युगकालेशुेन अष्टालस्मृतो नर आदतमस्तिष्को नवतालो भवे तुय संहदा जानुबाहुस्तु ससुरैरपिपूज्यते गवाश्वहस्तिनां चैव महिषस्यावरात्मनाम् कर्म नैतेन विज्ञेये ह्राश्ववृद्धि युगे युगे षट्सप्तत्यङ्गुलोत्सेथः पशूनां खगुदस्तु अङ्गुलाष्टशतम् पूर्णमुत्सेधकरीणां स्मृतः अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना पञ्चाशदायवानाञ्च उत्सेधशाखिनां स्मृतः मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः तल्लक्षणस्तु देवानां दृश्येतत्त्वदर्शनाद् बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते तथा सातिशयश्चैव मानुषः काय उच्यते देवै भावाये दिव्य क्राता भा दिव्यमुषा पशूं पक्षिणवराणश ग्य व्योश्वाश्च हति पक्षिण न गा उपयुक्ता क्रिया स्वेदे यज्ञिया स्विह सर्वशः देवस्थानेषु जायन्ते तद्रूपा येव ते पुनः यथाशयोपभोगास्तु देवानाम शुभमूर्तयः तेषां रूपानुरूपैस्तु प्रमाणैस्तानुजङ्गमैः मनोज्ञैस्तत्र भावैस्ते सुखिनो ह्युपपेदिरे अधशिष्टान् प्रवक्ष्यामि सदत्साधूं तथैव सदिब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युद सा जात्याद्ब्रह्मणस्त्वेदे तेन सन्तःप्रचक्षते दशात्मके ये विषये कारणे चाष्टलक्षणे न क्रुध्यन्ति न दृश्यन्ति जिदात्मानस्तु दे स्मृताः सामान्येषु दुधर्मेषु तथा वैशेषिकेषु च ब्रह्मक्षत्रविश्वो यस्माद्युक्तास्तस्माद्विजातयः वर्णाश्रमेषु युक्तस्य स्वर्गदौ सुखचायमः श्रौधस्मार्थस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते विद्यायात् साधनात् साधुर्ब्रह्मचारी गुरोर्हितः गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते साधनात्तपसोरण्ये साधुर्वैखानस्मृतः यदमानो यदि साधु स्मृतो योगस्य साधनात् एवमाश्रमधर्माणां साधनात् साधवस्मृताः गृहस्थो च वानप्रस्थो यतिस्तथा अथ देवानपितरो मुनयो न च मानुषाः अयं विन्ददे ह्ययं धर्मा धर्मा भिन्नदर्शनाः धर्माधर्मा शब्दा वेदौ क्रियात्मकौ कुशला कुशल कर्म धर्म विहस्मृता धारणाथो धृति धाशर्ति अनाम चोच्य अथे प्रापको धर्म आचार्यपद्य अधर्मश्चा निष्टोस्याचार्यपद्य वृद्धाचा लोलुकाश्वात्मंदों सम्यग् विनीदा स्वयमाचरदे यस्मादाचारं स्थापयत्यपि आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते धर्मज्ञैर्विहितो धर्मश्रौदस्मार्तो द्विधा द्विजैः दाराग्नि होत्रसम्बन्धाद्विधा श्रौदस्य लक्षणम् स्मार्तो वर्णाश्रमाचार्यैर्यमयि शनियमयि स्मृतः पूर्वेभ्यो वेदयित्वेहश्रौदं सप्तर्षयोऽब्रुवन् ऋचो यजुं सामानि ब्रह्मणोऽ च श्रुतिः मन्वन्तरस्यादि तस्य स्मृत्वाचारान्मनुर्जगौ तस्मास्मार्थो वर्णाश्रमविभाजकः स एष विविधो धर्मशिष्टाचार इहोच्यते शेषशब्दशिष्ट इति शेषं शिष्टं प्रचक्षते मन्वन्तरेषु ये शिष्ठा इह तिष्ठन्ति धार्मिकाः मनुःसप्तर्षयश्चैव धर्मार्थं ये च तिष्ठन्ति ताञ्चिष्ठान्वै प्रचक्षते मन्वादयश्च ये शिष्ठा ये मया प्रागुदीरिताः तैः शिष्टैश्चरितो सम्यगेव युगे युगे त्रयीवार्तादण्डनिधिर्युज्या वर्णाश्रमास्तथा शिष्ठैराचर्यते यस्मान्मनुना च पुनः पुनः पूर्वैपूर्वगदत्वाच्च शिष्ठाचार स सात्वदः, दानं सत्यं तपोज्ञानम् विद्यज्या व्रजनं दया अष्टौ तानि शिष्टाचारस्य लक्षणं शिष्टा यस्माच्चरन्त्येन मनुसप्तर्षयस्तु वै मन्वन्तरेषु सर्वेषु शिष्टाचारस्तदस्मृतः विज्ञेयश्रवणाश्रौदस्मरणास्मार्त उच्यते युज्या वेदात्मकश्रौदस्मार्तो वर्णाश्रमात्मकः प्रत्यङ्गानि च वक्ष्यामि दृष्ट्वा दुर्भूतमर्धं ह्यः पृष्ठो वै ननुगूहति यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च इत्येतत्तपसो रूपं सुघोरं सुदुरासदम् पशूनां द्रव्यहविषां ऋक्सामयजुषां तथा ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते आत्मवत्सर्वभूतेषु या हिताय प्रवर्तन्ते समादृष्टिकृष्णाप्येषा दया स्मृता आकृष्टो निषदो वापि नाक्रोशेद्यो न ना हन्ति च वाङ्मनःकर्मभिर्वेति तिदिक्षैषा क्षमा स्मृता स्वामिना रक्ष्यमाणानामुत्सृष्टानां च सम्भ्रमे परस्वानामनादानमलोभ इति कीर्त्यते मैथुनस्यासमाचारो न चिन्तानानुजल्पनं निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते आत्मा वेन्द्रििया वै मिध्यात श्याम शामस्यै तत् लम् दशात्मके यो विषय कारणे चाष्टल न क्रुध्येत प्रतिशत सजिद्मा विभा यद्यदिष्टतमं द्रव्यं न्याये नैवागतं च यद् तत्तद्गुणवदेयमित्येतद्दानलक्षणं दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमं तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये कारुण्यात्सर्वभूतेषु संविभागस्तु मध्यमः श्रुति स्मृदिभ्यां विहितो धर्मो वर्माश्रमात्मकः शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसम्मतः अप्र द्वेषो ह्यनिष्ठेषु तथेष्टस्याभिनन्दनम् प्रीतिपादेभ्यो विवृत्तिर्वक्रता सन्नसकमणस कुशला कुशला न दुप्रहास उच्य से व्यक्ताए विशेषास्ते चेतने। चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते प्रत्यङ्गानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतं ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वं स्वायं भुवेंदरे अत्र वो वर्णयिष्यामि तथैव चादुर्होत्रस्य चादुर्विद्यस्य चैव हि प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते हृचो यजूं श्रीसमानि यथा च प्रदिदैवतम् आभूदः संप्लवस्यापि वर्ज्यैगं सदरुद्रियम् विधिर्हौत्रस्तथा स्तोत्रं पूर्ववत् सम्प्रवर्तते दिव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव चतुर्थमाभिजनकं स्तोत्रमेदचतुर्विधं मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये प्रवर्तयदि तेषां वै ब्रह्मास्तोत्रं च दुर्विधं एवं मन्द्रगणानान्दु समुत्पत्तिश्च दुर्विधा अथर्वगर्यजुषां साम्नां वेदेष्विह पृथक् ऋषीणां तप्यदामुग्रं तपः परमदुष्करं मन्त्राः प्रादुर्बभूवर्हि पूर्वमन्वन्तरेष्विह असन्तोषाद्भयाद्दुःखात् सुखाच्चोकाच्च तारकाख्येन दर्शनेन यदृच्छया ऋषीणां यदृषित्वं हि तद्वक्ष्यामि हलक्षणैः अतीतानागतानां पञ्चधा त्व ऋषिरुच्यते वक्ष्यामि तत्र ह्यार्षसमुद्भवं गुणसाम्ये वर्तमाने सर्व तदा अविभागे निर्देश्ये तमोमये तमोम अबुद्धिपूर्वक चेदनाथ प्रवर्त चेदनाबुदिपूं तो चेदन न प्रवर्तते प्रवर्तते तथा द्वौद् यथा मत्स्योतके उभे चेतनाधिष्ठिदंसत्वं प्रवर्तति गुणात्मकं कारणत्वात् तथा कार्यं तदा तस्य प्रवर्तते विषयो विषयित्वाच्च अर्थेऽर्थत्वात् तथैव कालेन प्रापणीयेन भेदास्तु करणात्मकाः संसिध्यन्ति तदा व्यक्ताक्रमेण महदादयः महतश्चाप्यहङ्कारस्तस्माद्भूतेन्द्रियाणि च भूदेभ्यो भूतभेदू्यो जज्श्मस्पर संसिध्यक सदर्तत योक्रृढ़ काला तथा विवृत्ताः काले नैकेन कारणाद, यथा अन्धकारे खद्योदसहसा सम्प्रदृश्यते तथा विवृत्तो ह्यव्यक्तात् खद्योद इव सञ्ज्वलन् समाहन् स शरीरस्तु यत्रैवायमवर्तत तत्रैव संस्थितो विद्वान्द्वारशालामुखे विभुः महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते तत्रैव संस्थिते विद्वांस्तमसोन्द इति श्रुतिः बुद्धिर्विवर्तमानस्य प्रादुर्भूता चतुर्विधा ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयं सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै समःत्मा शरीरस्य वैवर्ता सिद्धिरुच्यदे यद सर्वान् क्षेत्रज्ञानमधापि पुरुषत्वाच्च पुरुषः क्षत्रे ज्ञानात् स उच्यते यस्माद्बुद्ध्यानुषेदे च तस्माद्बोधात्मकस्स वै संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनं एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः विवृत्तिसमकालं तु बुद्ध्या व्यक्तं ऋषिस्वयं परं ह्यर्षयते यस्मात् परमर्षित्वमस्य तद् गत्यर्था दृशतेर्धादोर्नामनिर्वृतिरादितः यस्मादेव स्वयंभूतस्तस्माच्चाप्यर्शिता स्मृता ईश्वरा स्वयमुद्भूता मनसा ब्रह्मणः सुताः यस्मादुत्पद्यमानैस्तैर्महान् परिगदः परः यस्मादशन्ति ते धीरा महान्तं सर्वतो गुणैः तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिना ईश्वराणां सुधास्तेषां मानसा औरसाश्च वै अहङ्कारं तपश्चैव रिषन्तिरिषिदाङ्गदाः तस्मात् सप्तर्षयस्ते भूतादौ तत्त्वदर्शनाद् ऋषिपुत्रा ऋषिकास्तु मयिधुनाद्गर्भसम्भवाः तन्मात्राणि च सत्यं च ऋषं ते ते महौजसः सप्तशर्यस्तस्ते च पर दर्शनाः ऋषिकाणां सुतास्ते स्युर्विज्ञेया ऋषिपुत्रकाः ऋषन्ति ते हृतं यस्माद्विशेषांश्चैव तत्त्वतः तस्मात् सप्तर्षयस्तेऽभिश्रुतेः परमदर्शनाद् अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव भूदात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते इत्येता ऋषिजातीस्ता नामभिः पञ्चवैशृणो भृगुर्मरीचिरत्रिश्चह्यङ्गिरा पुलः क्रतुः मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चेदिते दश ब्रह्मणो मानसाह्येदे उद्भूता स्वयमीश्वराः परत्वेनर्षयो यस्मा स्मृतास्तस्मान्महर्षयः ईश्वराणां सुदाह्येदे ऋषयस्तान्निबोधत काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा उतद्यो वामदेवश्च अपास्यश्चोषिजस्तथा कर्दमो विश्रवाशक्तिर्वालकिल्यास्तथार्वतः इत्येते ऋषयः प्रोक्तास्तपसा चर्षिदाङ्गदाः ऋषि पुत्रा नृषीकांस्तु गर्भोत्पन्नान्निबोधत वत्सरो न गृहूश्चैव भरद्वाजस्तथैव च ऋषिदीर्घतमाश्चैव बृहदुग्धशरद्वदः वाजश्रवाशुजिश्चैव पश्याश्वश्च पराशरः दधी च शंशपाश्चैव राजा वैश्रवणस्तथा इत्येते ऋषिका प्रोक्तास्ते सत्या दृशिताङ्गदाः ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः ये ते मन्त्रकृतः भृगुकाव्यचेताचिकोत्मजमदघ्निश्चारस्वत आष्टिषेणो विदसारस्वतस्तथा विद ह्यसुवर्चस वैन्यप्रधुर्दिव दास बाध्यश्वो गृत्सशनक एकोनविंशतिर्ह्येदे भृगवो मन्त्रवादितः अंगिरा वैद्यगश्चैव भरद्वाजोधभाष्कलिः ऋतवाकस्तथा गर्गशिनिः सकृतिरेव च पुरुकुत्सश्चमान्थादाख्यं परीक्षस्तथैव च युवनाश्व पौरकुत्स्रसद्दस्युश्च दंस्युमान् आहार्यो ह्यजमीढश्च तुक्षह्यः कपिरेव च वृषादर्भो विरूपाश्वकण्वश्चैवाधमुद्गलः उदख्यश्च सनद्वाजस्तथा अयास्यश्चक्रवर्ती च वामदेवस्तथैव च अशिजो बृहदुग्धश्च ऋषिर्दीर्घतमास्तथा कक्षी वांश्चत्रयस्त्रिंशत् स्मृतास्याङ्गिरसा वराः ये दे सर्वे काश्यु निबोधद काश्यप वत्सो नैध्रुवो रिभ्य असिदेवल्चे ब्रह्मवादिन आिन श्यार आिोत्र पूर्वाति तूर्वाति सह इे चात्रय प्रोक्ता मंद्रकारा महर्षय वसीषक्रिश्च तथ पराशर चतुर्थइ्रमदी पंचमश भरधवसु षष्ठश्च मैत्रावरुणिकुण्डिनः सप्तमस्तधा यदि सप्त वसिष्ठाश्च ब्रह्मवादिनः विश्वामित्रस्तु गाधेयो देवराधस्तधोद्गलः तथा विद्वान्मधुछन्दा ऋषिचान्योकमर्षणः अष्टको लोहितश्चैव कथक्कोलश्च तावुभौ देवश्रवास्तथा रेणुः पूरणो धनञ्जयः त्रयोदशैते धर्मिष्ठा विज्ञेयः कुशिका वराः अगस्त्योयो दृढायुश्च विद्मवाहस्तथैव च ब्रह्मिष्टागस्तपाह्येते त्रयः परमकीर्तयः मनोर्वैव स्वतश्चैव येलो राजा पुरुखाः क्षत्रियाणां चरावेदौ विज्ञेयौ मन्द्रवादिनौ भलन्धनश्च वत्सश्च सङ्गीलश्चैव ते त्रयः ये ते मन्त्रकृतश्चैव वैश्यानां प्रवरा स्मृताः इत्येषा नवधिः प्रोक्ता मन्त्रायै ऋषिभिः कृताः ब्रह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गबादे युगप्रजालक्षणमृषिप्रवरवर्णनं च नाम त्वात्रिंशत्तमोऽध्यायः ओ